अथ अष्टमोऽध्यायः अर्जुन उवाच किम् तद्ब्रह्म किमध्यात्मम् किम् कर्मपुरुषोत्तमा अधिभूतम् च किम् प्रोक्तम् अधिजैवम् किमुच्यते कथम् पोत्र देहेऽस्मिन् मधुसूदला प्रयाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः ए ब्रह्म स्वभावोध्यात्मं स्वभावोऽध्यात्मम् उच्यते भूतभावोद्भवतरो विसर्गः कर्म भूतम् क्षरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोकम् केव देये देहभृता मद्भाव याति नास्त्यत्र कौ <laughs> मे वैष्यसि असं चेतसा परमं पुरुषं दिव्यं दिव्यम् कविम् पुराणम् अनुशासितारम् अणोरणीयाम् समनुस्मरेद्यः सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णम् तमसः परस्ताते चनेन भक्त्या युक्तो योगबलेन च भ्रुवोर्मध्ये प्राणमावेश्य दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः यदिच्छन्तो ब्रह्मचर्यम् चरन्ति तत्तेन पदम् सङ्ग्रहेण प्रवक्ष्ये ो कृतिनिरुध्य च मूर्ध्याधा अनुस्मरन् यप्रयात् यघम् स या मामुपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिम् परमा गता na vidyate nikete <music> sahasra yuga paryanta यद् ब्रह्मणो विदुः रात्रिम् युगसहस्रान्ताम् देवो रात्रविदो जना प्रभवन्ति अहरागमे रात्र्या भूतग्रामः सयेवायम् भूत्वा भूत्वा प्रदीयते में अवश पार्थ प्रभव अहरा नश्यत् नवीनस्य कि नरिवर्ता ते तथाम पर पुरुषः सपरः या यस्यान्तस्थानि भूतानि येन सर्वम् वृत्तिम् आवृत्तिम् चैव योगिनः प्रयातयान्तितम् कालम् वक्ष्यामि भरतर्षभा ज्योतिः अहः शुक्र षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो भूमो तथा कृष्णः शणमासा दक्षिणायनम् तत्र चाङ्ग्रमसम् ज्योतिः योगी प्राप्य निवत् शुक्रकृष्णे गती केते जगतः शाश्वते मते एकयाति अना नैते पार्थ पार्थजानन् योगी मुख्यति कश्चन यज्ञेषु तपःसु चैव बाणेषु यत् पुण्यफलम् प्रदिष्टम् अत्येति तत्सरूपम् इदम् विदित्वा योगी परम् स्थानम् उपैति च सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः